अथैकत्रिंशः सर्गः एवम् श्रुत्वा स संवादम् लक्ष्मणः पूर्वमागतः बाष्पर्याकुलमुखः शोकम् सोढुमशक्नुवन् सभ्रादुश्चरणौ गाढम् रघुनन्दनः सीतामुवाचा तेषाम् राघवम् च महाव्रतम् यदि गन्तुम् कृता बुद्धिर्वनम् मृगगजायुतम् अहम् त्वानुगमिष्यामि वनमग्रे धनुर्धरः मया समेतोरण्यानि रम्याणि विचरिष्यसि पक्षिभिर्मृगयूथैश्च सङ्घुष्टानि समन्ततः न देव लोकाक्रमणम् नामरत्वमहम् वृणे ऐश्वर्यम् चापि लोकानाम् कामयेन त्वया विना एवम् ब्रुवाणः निश्चितः रामेण बहुभिः साम् त्वैर्निषिद्धः पुनरब्रवीत् अनुज्ञातस्तु भवता पूर्वमेव यदस्म्यहम् किमिदानीम् पुनरपि क्रियते मे निवारणम् यदर्थम् प्रतिषेधो क्रियते क्रियते गन्तुमिच्छतः एतदिच्छामि विज्ञातुम् संशयो हि ममानघा ततो ब्रवीन महातेज रामो लक्ष्मणमग्रतः स्थितम् प्रागामिनम् धीरम् याचमानम् कृताञ्जलिम् स्निग्धो धर्मरतो धीरः सततम् सत्पथे स्थितः प्रियः प्राणसमो वश्यो विजेयश्च सखा च सौमित्रे त्वयि गच्छति तद्वनम् को कौसल्याम् सुमित्राम् वा अभिवर्षति कामैर्यः पर्जन्यः पृथिवीमिव स कामपाशपर्यस्तो महातेजामहीपतिः सा हि राज्यमिदम् प्राप्य नृपस्याश्वपतेः सुता दुःखितानाम् सपत्नीनाम् न करिष्यति शोभनम् न भरिष्यति कौसल्याम् च सुदुःखिताम् भरतो राज्यमासाद्य कैकेय्याम् पर्यवस्थितः तामार्याम् स्वयमेवेह राजानुग्रहणेन वा सौमित्रेभरकौसल्यामुक्तमर्थमवं च एवम् मयिषते भक्तिर्भविष्यति सुदर्शिता धर्मज्ञगुरुपूजायाम् धर्मश्चाप्यतुलो महान् एवम् कुरुष्व सौमित्रे मत्कृते रघुनन्दना अस्माभिर्विप्रहीणायामातुर्नो एवमुक्तस्तु रामेण लक्ष्मणश्लक्ष्मया गिरा प्रत्युवाच तदा रामम् वाक्यज्ञो वाक्यकोविदम् तवैव तेजसा वीरभरतः पूजयिष्यति कौसल्याम् च सुमित्राम् च प्रयतो नास्ति संशयः यदि दुःस्थो भरतो राज्यमुत्तमम् तमहं दुर्मतिम् क्रूरम् वधिष्यामि न संशयः तत्पक्षानपि तान् सर्वाम् स्त्रैलोक्यमपि किन्तु सा कौसल्याभिभ्रयादार्या सहस्रम् मद्विधानपि यस्याः सहस्रम् ग्रामाणाम् सम्प्राप्तमुपजीविना तदात्मभरणे चैव मम मातुस्तथैव च पर्याप्तामद्विधानाम् च भरणाय मनस्विनी पुरुष मचरम वैधर्म विद्यों भविष्या तव चाथ प्रकल्प्यते। धनुरादाय सगुण खनिटकाधर अग्रतस्ते गन्थान तव दर्शय आहर ते निला च वन चा स्वाहि तपस्व भवांस्तु सः वैदेह्यागिरिसानुशरम्स्यसे अहम् सर्वम् करिष्यामि जाग्रतः स्वपतश्च ते रामस्त्वनेन सुप्रीतः प्रत्युवाच तम् सर्वमेव सुहृज्जनम् ये च राज्ञो जनकस्य महायज्ञे धनुषीरौद्रदर्शने अभेद्ये कवचे दिव्ये तूणी चाक्ष्य सायक आदिम्व खौ हेम पकृत सत्क्य निहित्वदाचार्य सर्वुधमादा क्षिप्र व्रजलक्ष्मण सृज्जन मंत्रिय वनवासा निश्चि इक्वाकुगुमागम्य तद्दिव्यम् राजशार्दूलः सत्कृतम् माल्यभूषितम् रामाय दर्शयामास सौमि त्वः सर्वमायुधम् तमुवाचात्मवान् रामः प्रीत्या लक्ष्मणमागतम् काले त्वमागतः सौम्यकाङ्क्षिते मम लक्ष्मणा अहम् प्रजातुमिच्छामि यदिदम् मामकन्धनम् ब्राह्मणेभ्यस्तपस्विभ्यस्तया सह परन्तप वसन्तीह दृढम् भक्त्या गुरुषु द्विजसत्तमाः तेषामपि च मे भूयः सर्वेषाम् चोपजीविनाम् न शिष्ठपुत्रम् त्वयज्ञमार्यम् त्वमानयाशु प्रवरम् द्विजाना अपि प्रयास्यामि वनम् समस्तानभ्यर्चशिष्टानपरान् द्विजातीन् इत्यार्षे श्रीमद् रामायणे आदिकाव्ये अयोध्याकाण्डे एकत्रिंशः